अत तृतीयाष्टकप्रथमप्रश्नप्रारम्भः ओर्नः पातु कृत्तिकाः नक्षत्रम् देवमिन्द्रियम् इदमासाम् विचक्षणम् कविरासञ्जुहोतन यस्य भान्तिरश्मयो यस्य केतवः यस्येवा विश्वाभवनानि सर्वाः सकृत्तिकाभिरभिसंवसानः अव्यर्नो देवः सुमिते दधातु प्रजापते रोहिणे वेतुपत्नी विश्वरूपा बृहति चित्रभानः सानो यज्ञस्य सुविते दधातु यथा जीवेम शरदः स वीराः रोहिणी विश्वारूपाणि प्रतिमोदमाना प्रजापतिकम् हमिषा वर्धयन्ति प्रिया देवानामुपजातु जज्ञम् सोमो राजा मृगशीर्षेण आगन् शिवम् नक्षत्रम् प्रजमस्य धाम आप्यायमानो बहुधा जनेषु रेखः यजमाने दधातु यत्ते नक्षत्रम् मृगशीर्षमस्ति प्रियगम् राजन्प्रियतमम् प्रियाणाम् तस्मै ते सोम हविषा विधेम सन्नयेधि द्व्यपदेशम् चतुष्पदे आर्द्रया रुद्रः प्रथमा नयेति श्रेष्ठो देवानाम् पतिरघ्निजानाम् नक्षत्रमस्य हबिषा विधेम मानः प्रजागुम्रीर्षण्मोतबीरान् रुद्रस्य परिणो आर्द्रानक्षत्रञ्जुशतागुम् हविर्नः प्रपञ्चमानो दुरितानि विश्वा अपाघशगुम् सनुदतामरातिम् पुनर्नो देव्यदितिस्पृणोत् पुनर्वसो नः पुनरेतान्यज्ञम् पुनर्नो देवा अभियम् सर्वे पुनः पुनर्वो हविषा यजामः एवा विश्वस्य भर्त्रे जगतः प्रतिष्ठा पुनर्वसो हविषा वर्धयन्ती प्रियम् देवानामप्येतुपाथः बृहस्पतिः प्रथमम् जायमानः शिष्यन्नक्षत्रमभितम् बभूव श्रेष्ठो देवानाम् कृतरासु विष्णुः दिशो नु सर्वाभयन्नो हस्तो तिष्यः पणिपातु पश्चात् बाधेताम् द्वेषो अभयम् कृणुताम् सुवीर्यस्य पतयः स्याम इदगुम् सर्पेभ्यो हविरस्तु जुष्टम् आश्रेषा येषाम् अनयन्ति चेतः ये अन्तरिक्षम् पृथिवीङ्क्षियन्ति तेन सर्पासोऽहवमागमिष्ठाः ये रोचने सोऽर्जस्यापि सर्पाः ये जिवम् देवे मनसञ्चरन्ति येषा माश्रेषा अनयन्ति कामम् तेभ्यः सर्पेभ्यो मधुमज्जुहोमि उपहूताः पितरो ये मघासु मनोजवसः सुकृतस्सुकृत्याः तेनो नक्षत्रे हवमागमिष्ठाः स्वधाभिर्यज्ञम् प्रयतञ्जुषन्ता ये अग्निदग्धा येनग्निदग्धाः ये मम् लोकम् यादिश्च विद्मयागुम् उचन प्रविद्म मघासु यज्ञगुम् सुकृतञ्जुषन्ताम् गवाम् पतिः फल्गुणी नामसि त्वम् अदर्यमन्वरुणमित्रचारो तन्त्वाभयगुंसवितारगुंसमेनाम् जीवा जीवन्तमुपसंविशेम येनेमा विश्वा भुवना निसञ्जिता यस्य अर्यमाराजा चरस्तु विष्मान् फल्गुनीना वृषभोरोरवीति श्रेष्ठो देवानाम्भगवो भगासि दत्त्वापि दुःफल्गुनीस्तस्य वित्तात् अस्मभ्यम् क्षत्रमजरगुम् सुवीर्यम् वो मदस्वधुपसन्नुदेह भगोह दाता भगयिप्रदाता भगो, भगो देवीः फल्गुनीराविवेश भगस्येत्त्वम् प्रसवङ्गमेम यत्र देवैः सधमादम् मदेम आयातु देवः सवितोपयातो हिरण्यजेन सुमृतारथेन वहन् हस्तगम् सुभगम् विद्मनापसम् प्रगच्छन्तम् पपुरिम् पुण्यमध्य हस्तः प्रगच्छ त्वमृतम् वसीयः दक्षिणेन प्रतिगृह्णीमयेन दातारमद्य यो नो हस्ताय प्रसुवाति यज्ञम् त्वष्टा नक्षत्रमभ्येति चित्राम् सुभगं स संयुगति किम् रोचमानाम् निवेशयन्नमृतान्मर्त्यादिश्च रूपाण्यपि गुंशन् भुवनान्यविश्वा तन्नस्त्वष्टा तदुचित्रा विचष्टाम् तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नः प्रजाम् भीरवती गुंसनोत् गोभिर्नो अश्वैः समनक्तु यज्ञम् वायुर्नक्षत्रमभ्येति निष्ट्या तिग्मशृङ्गो वृषभोरोवाणः समीरयन् भुवनामाधरिष्वा अपद्वेषा गुंसिनुगतामरातेः तन्नो वायुस्तदुनिष्ट्या शृणोतु तन्नक्षत्रम् भोरिदा अस्तु मह्यम् तन्नो देवासो अनुजानन्तु कामम् यथातरे मदुरितानि विश्वा दूरमस्मच्छत्रबोजन्तु भीताः तदिन्द्राग्नि कृणुताम् तद्विशाखे तन्नो देवा अनुमदन्तु यज्ञम् पश्चात्पुरस्तादभयन्नो अस्तु नक्षत्राणामधिपत्नी विशाखे श्रेष्ठाविन्द्राग्ने भुवनस्य गोपौ विशोचः शत्रूर्नपबाधमानौ अपक्षुधन्नुगतामरातिम् पौर्णा पश्चादुतपूर्णा पुरस्तात् उन्मध्यतः पौर्णमासे जिगाया तस्याम् देवा अधिसंवसन्तः उत्तमेनाक इलमादयन्ताम् वृद्धे सुवर्चा युवतिः स जोषा आह पौर्णमास्युगाच्छोभमाना आप्यायन्ति दुरितानि विश्वाः कुरन्दोहायजमादार्यजज्ञम् वृद्ध्या स्म हव्यैर्नमसोपसद्य मित्रम् देवम् मित्रधेयन्नो अस्तु अनोराधानहविषा वर्धयन्तः शतञ्जीवेम शरदः स वीराः चित्रन्नक्षत्रमुदगात्पुरस्तात् अनोराधास हिरण्ययैर्विततैरन्तरिक्षे इन्द्रो ज्येष्ठामनुनक्षत्रमेति यस्मिन्वृत्रम् वृत्रतोर्ये ततार तस्मिन्भयममृतम् दुहानाः क्षुधन्तरे मधुरितिन्दुरिष्टिम् पुरन्तराय वृषभाय धष्णवे सहमानाय मेभुषे पुरम् कृणोत् यजमानाय लोकं। मूलं प्रजां वीरवतीम् विदेय पराच्येतु निरृतिः पराचा लोभिर्नक्षत्रम् पशुभिः समक्तम् अहर्भोधाद्यजमानाय मह्यम् अहर्नो अर्भ्यसु विदे दधातो वाचा निर्वृतिम् शिवम् प्रजाये शिवमस्तु मह्यम् या दिव्या आपः पयसा सम्बूवुः या अन्तरिक्ष उत पार्थिवीर्याः या सामषाढा अनुजन्ति कामम् ता न आपश्यग्स्यो नाभवन्तो याश्च गोप्या याश्च नाद्याः यासामषाढा मधु भक्षयन्ति ता न आपश्यग्यस्यो नाभवन्तु तन्नो विश्वे उपशृण्वन्तु देवाः तदशाढा अभिसंयन्तु यज्ञम् तन्नक्षत्रम् रथताम् पशुभ्यः विश्वान् देवानि हविषा वर्धयन्तेः अषाढाः काममुपयान्तु यज्ञम् यस्मिन्ब्रह्माभ्यजयत्सर्वमेतत् अमुम् च लोकमिदमौ सर्वम् तन्नो नक्षत्रमभिजिद्विजित्य श्रियन् उभौ लोकौ ब्रह्मणा सञ्चितेमौ तन्नो नक्षत्रमभिजिद्विचष्टाम् तस्मिन् वयम् मृतनाः सञ्जयेम तन्नो देवासो अनुजालन्तु काम् <coughs> शृण्वन्ति श्रो नाम वृतस्य गोपाम् पुण्यामस्या उपशृणोमि वाचम् महीम् देवीम् प्रतीची मेनागम् हविषा त्रेधा विष्णुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रवयुच्छमाना पुण्यग्श्लोकम् यजमानाय कृण्वती अष्टौ देवा वसवः सोन्या सह चतस्रो देवी रजराश्रविष्ठाः ते यज्ञम् पान्तु रजसः परस्तात् संवत्सरेण ममज्ञस्वस्ति यज्ञन्नः पान्तु दक्षिणतोभियन्तु श्रविष्ठाः नक्षत्र संविशा मानो अरातिरघ शुंसागे क्षत्र राजुणोधिराज नक्षत्राणागुंशत्यो दीर्घमु शतगुंसहस्राभेश धत् यो राजुण उपयात तो विश् अभिंत दवा तन्नो नक्षत्रगुंशतभिषग्जुषाणम् दीर्घमायुः प्रतिरद्धेषजानि अजयेकपादुदगात् पुरस्तात् विश्वाभूतानि प्रतिमोदमानः तस्य देवाः प्रसमयन्ति सर्वे प्रोष्ठपदासो अमृतस्य गोपाः निर्भ्राजमानः सविधान उग्रः आन्तरिक्षमरुहजगन्द्याम् गम् सोऽर्जन् देवमजमेकपादम् प्रोष्ठपदासो अनुजन्ति सर्वे अहिर्बुद्धिजः प्रथमानयेति श्रेष्ठो देवानामुतमानुषाणाम् तम्राह्मणाः सोमपाः सोन्यासः प्रोष्ठपदासो अभिरक्षन्ति सर्वे चत्वारयेकमभिकर्म देवाः प्रोष्ठपदास इति यान् वदन्ति ते बुध्नियम् परिषद्यग्रस्तुवन्तः अहिगम् रक्षन्ति नमसोपसद्य पूषारेवत्यन्वेति पन्थालिवती पशुपावाजबस्त्यौ इमानि हव्या प्रयताजुषाणा सुगैर्नो यानैरुपजातान्यज्ञम् क्षुद्रान् वसोन् रक्षतुरेव दीनः गावो नो अश्वादुम् अन्वेतु पूषा अन्नकम् रक्षन्तौ बहुधा विरूपम् वाजगुम् सनुताम् यजमानाय यज्ञम् तदश्विनापश्वयुजोपजाताम् शुभङ्गमिष्ठौ श्रियमेभिरश्वैः स्वन्नक्षत्रगम् हविषा यजन्तौ मध्वासम् प्रक्तौ यजुषासमक्तौ यौ देवानाम् भिषजौ हव्यवाहौ विश्वस्य दूतापमृतस्य गोपौ तौ नक्षत्रम् जुजुषाणोपयाताम् नमोऽभ्याम् गृणमोऽश्वजिर्भ्याम् अपपाप्मानम् भरणेऽर्भरन्तु तद्यमो राजा भगवान् विचष्टाम् वागस्य राजा महतो महानिः सुगन्नः पन्थामभयम् कृणोत् यस्मिन्नक्षत्रे यमयेति राजा यस्मिन्नेनमभ्यषिञ्चन्त देवाः फलस्य चित्रकम् हविषा यजाम अपपाप्मानम् भरणेऽर्भरन्तु निवेशनी यत्ते देवा अलधुः नवो नवो भवति जायमानो यमादित्या अनुसुमा आप्याययन्ति ये विरूपे समनसा संयन्ती समानन्तम् त्वम् परितातना ते विभो प्रभो अनुभो विश्वतो ते नो नक्षत्रे हवमागमेतम् वयम् देवी ब्रह्मणा संविदानाः सुरत्नासो देववीतिन् दधानाः अहोरात्रे हविषावर्धयन्तः अदिपाप्मानमतिमुक्त्या गमेम प्रत्यपदृश्यायतीक्षन्ति दुहिता दिवः अपोमही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनलीः उदुश्रियास च ते सूर्यः स च उद्यन्नक्षत्रमर्चिमत् तवेदुषोऽव्युषिसूर्यस्य च सम्भक्ते न गमेमहि तन्ना नक्षत्रमर्चिमत् भानुमत्ते च उच्चरत् उपयज्ञमिहागमत् प्रणक्षत्राय देवाय इन्द्रायेन्दुगुम् हवामहे सनः सविता सुवत्सनिम् पुष्टिदाम् वीरवत्तमम् पुदुत्यञ्चित्रम् अदितिर्न कुरुष्यतु महे मोषु मातरम् इदम् विष्णुः प्रदद्विष्णुः अग्निर्मूर्धा भुवः अनुनोद्यानुमतिरन्विदनुमते त्वम् अन्नादो देवानागः स एतमग्नये कृत्तिकाभ्यः पुरोणा स्मष्टाकपालम् निरवत् ततो वै सोऽन्नादो देवानामभवत् अग्निर्वै देवानामन्नादः यथा हवा अग्निर्देवानामन्नादः एवगम् ह वा एष मनुष्याणाम् भवति य एतेन हरिषा युजते य उचैन देवम् वेद सोऽत्र जुहोति अग्नये स्वाहा कृत्तिकाभ्यः अम्बा स्वाहा अम्बायै दुला स्वाहा दुलायै स्वाहा निरत्ने स्वाहा भ्रजन्त्ये स्वाहा मेघयन्त्ये स्वाहा वर्षयन्त्यै स्वाहा चुपणिकायै स्वाहेति प्रजापतिः प्रजा, प्रजा असृजता ता अस्मात्सृष्टाः पराचीरायन् सा साकुम् रोहिणीमभ्यध्यायत सोऽकामयत उपमावर्तेत समेन या गच्छेयेति स एतम् प्रजापतये रोहिण्यै चरुन्निरपपत् ततो वै सा तमुपावर्तत समेन या गच्छत उपहवायेनम् प्रियमावर्तते सम्प्रियेण गच्छते य एतेन हर्षा यजते य सोऽत्र जुहोति प्रजापतये स्वाहा रोहिण्यै स्वाहा रोचमानायै स्वाहा प्रजाभ्यः स्वाहेति सोमो वा अकामयत ओषधीनागुम् राज्यमभिजयेयमिति स एतगुम् सोमाय मृगशीर्षाय श्यामाकञ्चरुम् वयसि निरपपत् स ओषधीनागुम् राज्यमभ्यजयत् समानानागम् हवैराज्यमभिजयति य एतेन हविषा यजते य उचीन देवम् वेद सोऽत्र जुहोति सोमा यस्वाहा मृगशीर्षा यस्वाहा इम्बकाभ्यस्वाहौषधेभ्यः स्वाहा राज्याय स्वाहाभिजित्ये स्वाहा रुद्र वा अकामयत पशुमान्स्यामिति स एतगम् रुद्रायार्द्रायै प्रैयङ्गवम् चरुम् पयसि निरपपत् ततो वै स पशुमानभवत् पशुमान् हवै भवति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति रुद्राय स्वाहार्द्रायै स्वाहा पिम्बमानायै स्वाहा पशुभ्यः स्वाहेति रिक्षाबाल्यमलोमकासीत् सा कामयत ओषधे गर्वनस्पतिभिः प्रजायेजेति सैतमदित्ये पुनर्वसुभ्याम् शरम् निरपपद् ततो वा इयमौषधे गर्वनस्पतिभिः प्राजायत प्रजायते हवै प्रजया पशुभिः य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति स्वाहा पुनर्वसुभ्याम् स्वाहा भूत्यै स्वाहा प्रजात्यै स्वाहेति बृहस्पतिर्वा अगामयत ब्रह्म वर्चसी स्यामिति स एतम् बृहस्पतये तिश्याय नैवारम् चरुम् पयसि निरपपत् ततो वै स ब्रह्मवर्चस्य भवत् ब्रह्मवर्चसी ह वै भवति य एतेन हविषा यजते य उचैन देवम् बृहस्पतये स्वाहातिष्ठाय स्वाहा ब्रह्मवर्चसाय स्वाहेति देवासुराः संयत्ता आसन् ते देवाः सर्पेभ्य आश्रेषाभ्य आद्ये करम्भन्निरवपन् तानेताभिरेव देवताभिरुपानयन् एताभिर्हवै देवताभिर्द्विषन्तम् भ्रातृव्यमुपनयति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति सर्पेभ्यः स्वाहा श्रेष्ठाभ्यः स्वाहा दन्तशोकेभ्यः स्वाहेति पितरो वा अकामयन्त पितृलोकरुद्धि यामेति तयेतम् पितृभ्यो मघाभ्यः पुरोडाशकुंशर्कपालन्निरवपन् ततो वैते पितृलोक आर्ध्वन् पितृलोके हवारुध्नोति य एतेन हविषा यजते य उचैन देवम् वेद स्वोत्र जुहोति पितृभ्यः स्वाहा मघाभ्यः स्वाहा नखाभ्यः स्वाहा गदाभ्यः स्वाहा रुन्धतेभ्यः स्वाहेति हर्यमा वा अकामयत स एतमर्यम्णे फल्गुनेभ्याञ्चरन्निरपपत् ततो वै स पशुमानभवत् पशुमान् हवै भवति य एतेन हविषा यजते त्य उचेन देवम् वेद सोऽत्र जुहोति पर्यम्णे स्वाहा फल्गुने भागस्वाहा पशुभ्यः स्वाहेति भगो भगे श्रेष्ठी देवानागस्यामिति स एतम् भगाय भल्गुनीभ्याञ्चरम् निरवपद् पतो वै स भगी श्रेष्ठी देवानामभवद् भगी ह वै श्रेष्ठ्ये समानानाम् भवति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोगि भगाय स्वाहाफल्गुनीभ्यागुस्वाहा श्रेष्ठ्याय स्वाहेति सविता वा अकामयत षण्मे देवादधीरन् सविता स्यामिति स एतगुम् सवित्रे हस्ताय पुरोडा षन्द्वादशकपालन्यरवपदाशूनाम् व्रीहीणाम् त्वतो वैतस्मै श्रद्देवा अदधता सविता भवद् श्रद्ध वा अस्मै मनुष्यादधते सविता समानानाम् भवति य एतेन य उचैन देवम् वेद सोऽत्र जुहोति सवित्रे स्वाहा हस्ताय स्वाहा ददते स्वाहा पृणते स्वाहा प्रयच्छते स्वाहा प्रतिगृह्णते स्वाहेति त्वष्टा वा अकामयत चित्रम् प्रजाम् विन्देयेति स एतन् त्वष्ट्रे चित्रायै पुरोडाशमष्टाकपालम् निरपपत् ततो वै चित्रकम् हवैः प्रजाम् विन्दते य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति त्वष्ट्रे स्वाहा चित्रायै स्वाहा चैत्राय स्वाहा प्रजायै स्वाहेति वायुर्वा अकामयत कामचारमेष लोकेष्वभिजयेयमिति स एतद्वायवे नुष्ट्यायै घृष्ट्यै दुग्धम् पयोनिरपपत् ततो मे स कामचारमेष लोकेष्वभ्यजयत् कामचारगम् हवा एष लोकेष्वभिजयति ययेतेन हविषा यजते य उचैन देवम् वेद स्वोत्र जुहोति वायवे स्वाहा निष्ट्यायै स्वाहा कामचाराय स्वाहाभिजित्यै स्वाहेति इन्द्राग्नी वा अकामयेताम् श्रेष्ठ्यम् देवानामभिजयेवेति तावेतमिन्द्राग्निभ्याम् शाखाभ्याम् पुरोणाशमेकादशकपालन्यरवपताम् ततो वै तौ श्रेष्ठ्यम् देवानामभ्यजयताम् श्रेष्ठ्यगुम् ह वै समानानामभिजयति य एतेन हविषा यजते य उचैन देवम् वेद सोत्रजुहोति इन्द्राग्निभ्यागस्वाहा विशाखाभ्यागस्वाहा श्रेष्ठ्याय स्वाहाभिजित्ते स्वाहेति अथैतत्पोर्नमास्या आज्यम् निर्पवति कामो वैपोर्नमासी काम आज्यम् कामेनैव कामगुंसमर्धयति क्षिप्रमेन पुंसकाम उपनमति येन कामेन यजते सोऽत्र जुहोति ओर्णमास्यै स्वाहाकामायः स्वाहा गत्यै स्वाहेति मित्रो वा अकामयत मित्रधेयमेषु लोकेष्वभिजयेयमिति स एतम् मित्रायानुराधेभ्यश्चरुन्निरपपत् ततो वै स मित्रधेयमेषु लोकेष्वभ्यजयत् मित्रधेयगम् ह वा एषु लोकेष्वभिजयति य देवं देवम् वेद सोऽत्र जुहोति मित्राय स्वाहानुराधेभ्यः स्वाहा मित्रधेयाय स्वाहाभिजित्यै स्वाहेति इन्द्रो वा अकामयत ज्येष्ठ्यम् देवानामभिजयेयमिति स एतमिन्द्राय ज्येष्ठायै पुरोडाशमेकादशकपालन्निरवपन्महाब्रीहिणाम् ततो वैष ज्येष्ठ्यम् देवानामभ्यजयते ज्येष्ठ्यगम् हवैषमानानामभिजयति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोती इन्द्राय स्वाहा ज्येष्ठायै स्वाहा ज्येष्ठ्याय स्वाहाभिजित्यै स्वाहेति प्रजापतिर्वा अकामयत मूलम् प्रजा तदेतम् प्रजापतये मूलाय चरन्निरवपद् ततो वै समूलम् प्रजामविन्दत मूलगम् हवै प्रजाम् विन्दते य एतेन हविषायजते य उचैन प्रजापतये स्वाहा मूलाय स्वाहा प्रजायै स्वाहेति आपो वा अकामयन्त समुद्रम् काममभिजयेमेति एतमद्भ्यो शाढाभ्यश्चरन् निरवपन् ततो वै ताः समुद्रम् काममभ्यजयन् समुद्रगुम् ह वै काममभिजयति य एतेन हविषायचते य उचैन देवम् वेद सोऽत्र जुहोति अद्भ्यः स्वाहा विश्वे वै देवा अकामयन्त अनपजय्यम् जयेमेति तयेतम् विश्वेभ्यो देवेभ्यो शाखाभ्यश्चरम् निरवपन् तरो वैतेनपजयमजयन् अनपजैयगुम् ह वै जयति य एतेन हविषा गजते य उचैन देवम् वेद सोऽत्र जुहोति विश्वेभ्यो देवेभ्यः स्वाहा शाढाभ्यः स्वाहा अनपजय्याय स्वाहाजित्यैः स्वाहेति ब्रह्म वा अकामयत ब्रह्मलोकमभिजयेयमिति तदेतम् ब्रह्मणेऽभिजिते चरुन्निरपपत् ततो वैतद्ब्रह्मलोकमभ्यजयत् ब्रह्मलोकगुम्ह वा अभिजयति य एतेन हरिषा यजते य उचैन देवम् वेद ोऽत्र जहोति स्वाहा स्वाहाभिजिते स्वाहा ब्रह्मलोकाय स्वाहाभिजित्ये स्वाहेति विष्णुर्वा अकामयत पुण्यज्ञश्लोकगम् शृण्वीय ममापापि कीर्तिरागच्छेदिति स एतम् विष्णवे श्रोणायै पुरोडाशन्त्रिकपालन्निरपपत् ततो वै स नैनम् पापी कीर्तिरागच्छत् पुण्यगुम् हरे श्लोकगुम् शृणुते नैनम् पापी कीर्तिरागच्छति य एतेन हविषायजते यौजीन देवम् वेद सोऽत्र जुहोति विष्णवे स्वाहाश्रोणायै स्वाहा श्लोकाय स्वाहाश्रुताय स्वाहेति असतो वा अकामयन्त अग्रम् देवतानाम् परियामेति तयेतम् वसुभ्यः पुरोडा पुरोडासमष्टाकपालम् निरपन् ततो वैतेऽग्रम् देवतानाम् पर्यायन् अग्रगुम् हवै समानानाम् पर्येति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र अग्राज स्वाहा परीत्यै स्वाहेति इन्द्रो वा अकामयत दृढो शिथिलस्यामिति स वरुणाय शतभिषजे भेषजे ह्यः पुरोडा शन्दशकपालम् निरपपत्कृष्णानाम् रीहीणाम् ततो वै स दृढो शिथिलो दृढो ह वा भवति य एतेन हमिषा यजते य सोऽत्र जुहोति वरुणाय स्वाहा शतभिषजे स्वाहा भेषजेभ्यः स्वाहेति अजो वा एकपादकामयत तेजस्वी ब्रह्मवर्चसी स्यामिति स एतमजायैकपदे प्राष्ठपदेभ्यश्चरम् निरपपत् ततो वै स तेजस्वी ब्रह्मवर्चस्य भवत् तेजस्वी ह भवति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्रजुहोति अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः ते स्वाहा तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहेति आहिर्वै बुद्ध्यो कामयत इमाम् प्रतिष्ठाम् विन्देयेति स एतमहजे बुद्धियाय प्रोष्ठपदेभ्यः पुरोणाशम्भूमिकपालम् निरपद् ततो वै स यिमाम् प्रतिष्ठामविन्दत इमागुम्ह वै प्रतिष्ठाम् विन्दते य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति अहजे बुद्धियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा स्वाहेति ऊषा वा अकामयत पशुमान् स्यामिति स एतम् पूष्णेरेवत्यै चरुन्निरपपत् ततो वै स पशुमानभवत् पशुमान् हवै भवति य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति ऊष्णे स्वाहा पशुभ्यः स्वाहेति अश्विनौ श्रोत्रस्विनावबधिरोऽ स्या ता वेति तावेतमश्विभ्यामश्वजिग्भ्याम् पुरोणाशन्धुविकपालम् निरवपताम् ततो वेतौ श्रोत्रस्विनावबधिरा भवताम् श्रोत्रस्वी हवा अबधिरो भवति य एतेन हविषायजते य उचैन देवम् अश्वभ्या गवाहाश्वजभ्या गवाहा श्रोत्राय स्वाहा श्रुत्यै स्वाहेति यमो वा अकामयत पितृणागुम् राज्यमभिजयेयमिति स एतम् यमाजापभरणेभ्यश्चरम् निरपपत् ततो वै स पितृणागुम् राज्यमभ्यजयत् समानानागुम् ह वै राज्यमभिजयति य एतेन य उचैन देवम् वेद सोऽत्र जुहोति यमायस्वाहापभरणेभ्यः स्वाहा राज्याय स्वाहाभिजित्यै स्वाहेति अथैतदमावास्याया आज्यम् निर्भवति कामो वा अमावास्या काम आज्यम् समर्थयति क्षिप्रमेन कुम् स उपनमति येन कामेन यजते सोऽत्र जुहोति अमाभा स्यादे स्वाहाकामाय स्वाहा गत्यै स्वाहेति चन्द्रमावा अकामयत अहोरात्रानद्धमासान्मासान्हृतोम् संवत्सरमाप्त्वा चन्द्रमसः सायुज्यकम् स लोकतामाप्नुयामिति स एतम् चन्द्रमसे प्रतिदृश्यायी पुरोडाशम् पञ्चदशकपालम् निरपपत् ततो वेसोऽहो रात्रानर्धमासान्मासानृतोन् संवत्सरमाप्त्वा चन्द्रमसः सायुज्यकम् स लोकतामाप्नोत् अहोरात्रान हवा अर्धमासान्मासानृतोन् संवत्सरमाप्त्वा चन्द्रमसः सायुज्यगम् स लोकतामाप्नोति य एतेन हमिषा युजते य स्वाहा प्रदीदृश्यायै स्वाहा अहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा अहोरात्रे वा रामयेताम् अपत्यहोरात्रे मुच्ये व हि घनावहोरात्रे आप्नुयातामिति ते एतमहोरात्राभ्याम् चरुन्निरपपताम् द्वयानाम् रेहिणाम् शुक्लानाम् च कृष्णानाम् च समाप्त्योर्दुग्धे श्वेतायै च ततो वैते अद्यहोरात्रे अमुच्येते नैने अहोरात्रे आप्नुताम् आप अतिहवा अहोरात्रे मुच्यते नैनमहोरात्रे आप्नुतः आप य एतेन हविषा यजते य उचैन देवम् वेद सोऽत्र जुहोति अह्ने स्वाहा रात्रियै स्वाहा अतिमुक्त्यै स्वाहेति उषा वा कामयत सुभगा अस्यामिति व्योषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा युष्टायै स्वाहेति तथैतस्मै नक्षत्राय चरम् निर्वपति यथा त्वम् देवानामसि एवमहम् मनुष्याणाम् भोजासमिति यथा ह वा एतद्देवानाम् एव गुम्हवा एषमनुष्याणाम् भवति य एतेन हविषा य उजैन देवम् वेद सोत्रजहोदि नक्षत्राय स्वाहोदेष्यते स्वाहा उद्यते स्वाहोदिताय स्वाहा हरसे स्वाहा भरसे स्वाहा भ्राजसे स्वाहा तेजसे स्वाहा तपसे स्वाहा ब्रह्मवर्चसाय स्वाहेति सूर्योपा अकामिलत नक्षत्राणाम् प्रतिष्ठा स्यामिति स एतकम् सौर्याय नक्षत्रेभ्यश्चरम् निरपपत् त्वतो वै स नक्षत्राणाम् प्रतिष्ठा भवत् प्रतिष्ठाः वै समानानाम् भवति य एतेन हविषायुधते य उचैन देवम् वेद सोऽत्र जहोति सौर्याय अथैतमदित्ये चरुन्निर्पपति इयम् वा अदितिः अस्यामेव प्रतितिष्ठति सोऽत्रजुहोति अदित्यै स्वाहा प्रतिष्ठायै स्वाहेति अथैतम् विष्णवे चरुन्निर्पपति यज्ञा वै विष्णुः यज्ञ एवान्ततः प्रतितितिष्ठति सोऽत्रजुहोति विष्णवे स्वाहा यज्ञायस्वाहा ये स्वाहेति इति तृतीयाष्टक प्रथमः